अथ चतुर्थकाण्डे चतुर्थप्रश्नः प्रारम्भः पार्श्वे क्षयन् जन्म प्रतिरसि धर्मा यत्त्वा धर्मं जन्मान्यसि दिवे त्वादिवञ्जन्म सन्धिरस्यन्तरिक्षाय त्वान्तरिक्षम् जन्म प्रतिदिरसि पृथिव्ये त्वा पृथिवेजन्म विष्टम् वासि वृष्ट्ये त्वा वृष्टिं जन्म रुत्रेभ्यस्वारुत्रान्यसुधेचरश्चादित्येभ्य स्वादित्यान्यन्मो जितृभ्यस्वापित्रोऽजन्मतन्दरसि प्रजाभ्यस्वा प्रजा जन्मवृतनाषाढसि पशुभ्यस्वा पशोऽन्यन्म एव दशोषधेभ्यस्तोषधेर्त्यन्वाभिरसि प्रभावेन्द्रायश्वेन्द्रं जन्माधिपतरसि प्राणाय त्वा प्राणञ्जन्म यन्तास्य पानाय त्वापान जन्मृत्पादि चक्षुषे चक्षिन्व याधाय त्वाश्वात्रम् जन्मत् त्रिवृदसि प्रवृदसि संवृतसि विवृदसि संरहासि निराहासि प्रभा ज्ञाजेदिक्वसास्ते देवाधिपदयो ज्ञे तूनाम् प्रति धत्ता त्रिवृत्त्वा स्ताम पृथिव्यावश्रयत्वाज्यमुत्थमयत्स्वन्दोम प्रतिष्ठत्यक्षिणादिकृतास्ते देवाधिपदय इन्द्र हे तीणाम् प्रति धत्ता पञ्चदशस्तास्ताव पृथिव्याश्रय ीतिकादृत्याश्च देवा अधिपदय सोमो हे तेनाम्प्रता सप्तश स्वास्वाम दिव्याविश्रयतमुक्तं अधिपदयो वर्णो हे येनाम् दत्तैकव्यंश स्वास्त्वमं पृथिव्याश्रयतुल्यमुक्तं धिपतयो बृहस्पते धत्ता तृणमात्रयस्थितं पृथिव्याश्रयताङ्गैश्वदेवाग्निमारुते हृत्ये अव्यधयन्ते स्वप्नेता साम्ये प्रतिष्ठित्या अन्तरिक्षाय ऋषयस्वा प्रथमजा देवेषु दिवा मात्रया वरिणा प्रथन् सर्वे संविधानाकस्य पृष्ठे समर्केण लोके यजमानम् च साधयन्तु अयम् पुरोहरिकेशसूर्यरश्मिस्तस्य रथगृत्सस्य रथो यास्य सेनानि ग्रामन्योपन्यगस्य शरदो यादुधाना हेजीरक्षागुञ्जप्रहेति रयिम् दक्षिणा विश्वकर्मा तस्य रथस्वनश्च रथेद्रस्य सेनानि ग्रामन्यो मेन्याजा सरसो दक्षणो र्पा हेतुर्व्याक्रा प्रहेतमुद्रस्य सेनानि ग्रामण्यो विश्वाजी च कृताजी सरसा पापो हेतुर्वादप्रहेतर्वात्मशस्तस्य तार्क्ष्यस्तारिष्टनैमस्य सेनानि ग्रामण्याश्च सरसो विद्युद्धेतर स्तेभ्या नमस्तेनामृयन्मुत्राय नमः परमेश्वे त्वा साधयतु दिवपृष्ठेश्वं प्रभो मदे परिभोमते यच्छन्त्रमायगुं शेर्विश्वस्मै प्राणाय पानाय व्यानाय धानाय प्रतिष्ठाय चरित्राय सूर्य हसंवरणातो अनुपादिशोचरधस्मदे व्रजनम् कृष्णमस्ति मोर्धा जगः कल्पदे पृथिव्या अयम् अपागोरेधागोसि जन्मति पावने पुष्करादध्यधर्मा निरमन्धरा मोर्धा विश्वस्य वागतः अयमज्ञस्य सहस्रणावाजस्य शचिनस्पतिः मोद्धाकवीरवीणाम् भो यज्ञस्य रचितस्य नेतायत्रानियुभ्यस्य च शिवाभिः दिविमोद्धानन्दशे सुवर्षान्येहव्यवाहम् अभो यस्वमिधाजनानाम् प्रतिधेनविवाहषासम् यह्वायिवक्प्रभयामत्यहानाप्रभाववश्रुधेनाकमक्षा वयेमेऽध्यायवजो वन्दारे नेष्ठस्पृशादेभ्यः श्रीज्ञहायमन्मोविन्दम् च श्रीयानम्बने वने स जय मध्यमानः सो महात्माहस्सहस्पुत्रमङ्गिरः यज्ञस्य केतुम् प्रथमम् पुरोहितश्रावस्तमहावन्ते इक्षुजन्धवः स्वतिष्ठे शम्भुप्रियाज्ञे हव्यायवोभवे सखा यस्वंवस्वशक्स्वान्याज्ञये हरिषिष्ठा इक्षुदीनामोज्वानत्रे सहस्वदे समित्युमतेषण्णज्ञे विश्वान्निर्यः यज्ञोनाम् देवकोरासोजनाम् उदस्य सोचरस्ताीषुषः ईशानः सहसो यः अस्मेधेहि जातवे दोमे श्रवः श्रीधामवश्वरीस्मभ्यम् पूर्वणे कलीराजन्मतपराग्देवस्तो रुतोषतः सदिग्मजम्भरक्षसोदः प्रति आदेधेमहि जमन्तम् देवाचरम् यद्धस्यादेवनैयसीषमित्येदैतन्यवीषकृस्तादृभ्याभरा आदेशुक्रस्य ज्योतिषस्पदे सुश्चन्द्रदस्मविष्पदेहभ्य वाक्तुभ्यमूर्यदैशक्रस्तोतृभ्याभर द्वेषश्चन्द्रसभ्य शोधर्वी श्रीणीशासनि उता न उत्पूर्याभ्येषु ज्योदस्पदैशक्वस्तोतृभ्याभर अग्नेतमध्याश्रन्नश्चो मे कृतन्नभद्रकस्पृशम् पथ्यामादवोहीः अधाह्यग्ने भद्रस्य ृहताभूथ माभीष्टे अत्यगेर्भिर्क्नन्दाेदा क्षेम प्रदे दिवो नस्तनयन्ति सुष्माः एभिर्नो अर्कैर्ध्वानोर्वान् सुवर्णत्योति अग्ने विश्वेभिः सुमनानीकैः अग्निगोहातारम् मन्येदास्वन्दम् न्नजातवेदसम् यतो स्वधरो देवो देवाच्या कृपा धृतस्य विभ्राष्टमनुसुप्रसोजिषा जिह्वानस्य सर्पिषः अग्ने त्वन्नमः तत्राजा शिवो भव्यः त्वन्द्वासोजिष्ठदीदिवः सुन्नाय नो न मे मे सखिभ्यः अस रवधुश्रवाः ृभ्या त्वासैजाय लक्ष्म्याहाराभ्यान्ते सौख्यै भस्वामेभिश्चयै गोषाय स जातानां मध्यमस्थ्येयाय मया त्वासैजाय लक्ष्म्यं बादुरानि सत्यरपयन्ति मेघयन्ति वर्षयन्ति च पनेकानामासि प्रजापदनात्वा विश्वाभित्तिभिर्वविष्टामनुष्यास्त्यत्वा स्यान्तामहम् वत्येशा मे शर्म जर्मजास्त्र नित्योरन्तरिक्षम् ब्रह्मणाविष्टामृतस्य गोप्तारोस्भ्यान्तामहम् प्रवृत्तेषा मे शर्म जर्मजास्तुद्योरपराजितामृतेन विष्टादित्यास्य गोप्तारस्तु योगत्वमहम् प्रवत्येषा मे य पृथिव्याः पृष्ठे ज्योतिष्मदे विश्वस्मै प्राणाया बाणाय विश्वं ज्योदर्यच्छकर्मापाक्षस्य पृष्ठे ज्योतिष्मदे विश्वस्मै प्राणाय बाणाय विश्वं जौदर्येधिपति प्रजापतिश्वासादे ज्योतिष्मदे विश्वस्मै प्राणाया बाणाय विश्वञ्जोदर्येष्ठे प्रथले निरसि वृष्टि सनिरस्य देवानामज्ञेयान्यसि वायोर्यान्यसि देवानां वायोस्यन्तरिक्षस्यान्यसि देवानामन्तरिक्षयान्यस्यन्तरिक्षमस्यन्तरिक्षाय त्वायत्पासन्यकाय त्वा सतीकाय त्पाकेतायत्पा प्रचेदसे त्वाभिवस्पुदे त्वादिवस्पा ज्योतिषादित्येभ्यस्पर्चे त्वा रचे त्वा जुदेत्वा भासे त्वा ज्योतिषेत् न् पायषजितेजोदान् पातेजशिवजोदान् पापयशिवज्योदान् पावक्रशत्रिणोदान् पादृणे सादयामितेन यस्कृतशिवरिहस्कृत शिप्राच्यस्योत्तास्यन्तरिक्ष सदस्यन्तरिक्षे शिला सुषद शिष्ये न सदसि कृसद शिशवर्णसदसि नाकसदसि गुव्या त्वा त्रिणे साधयाम्यन्तरिक्षस्य त्वा ैव गुरगोहृन्नामधावे हि सगौरभावहे पाञ्चजन्य शुप्यज्ञया वा अयावा एव ओमा सर्दसगरस्वमेघः अग्निना विश्वासाट्सौर्येण स्वराट् कत्वा चेपति वृषभेणत्पष्टादित्येन मघवान् दक्षिणया सुवर्गमञ्जुनावृत्रहासौहारन्नादोपकारेण साम्नादनोपाभिराजास्यो दुष्मान् ब्रह्मणा समपागोभिर्यज्ञन्दाधारक्षेण मनुष्यानुश्वेन चरजेन च संवत्सरेण भजोस्तवसानाधृष्टः सौर्यः सन्तनोभिः प्रजापधन्मसान्धोच्यतो दीक्षायागु समिता वृत्ताम् पुरुषा समक्रेण्याम् वरुण क्रियमाणं यत्र क्रेतस्य विविष्टः प्रोह्यमानाधिपतिरागतः प्रजापति प्रणीयमानाग्निराग्निराग्नि प्रणीयमान इन्द्रः वृत्तानेतिरादितो विष्णुर्वा युः पूयमालो मित्रः क्षेरश्रीर्मश्रीर्वैश्वदेव उन्नीतोद्राहृतो वायुरावृत्तक्षाक्षागतपितृणान्नाराशगुंसोऽत्रावगतस्य प्रप्लुदस्वरुजङ्गतः ृत्तिका नक्षत्रमग्निर्देवताग्ने प्रजापदे धातुस्वामस्यर्चे भग्नी नक्षत्रं भगव देवता हस्तो नक्षत्रगणक्षत्रमिन्द्र स्वातीनक्षत्रम् आयुर्देवता विशाखे नक्षत्रमिन्द्रा देवता नो राधा नक्षत्रं मित्र देवतारोहिणी नक्षत्रमिन्द्रो देवता विदृतौ नक्षत्रं मित्रो देवता षाढा नक्षत्र आपो देवता षाढा नक्षत्रं विश्वे देवा देवता श्रोणा नक्षत्रं विष्णुर्देवता श्रविष्ठा नक्षत्रम् देवताक्षत्रमिन्द्र देवताः प्रोष्ठपदा नक्षत्रमय एकवाद्देवताः प्रोष्ठपदा नक्षत्रमहि बुध्नयो देवता देवती नक्षत्रम् भूषा देवता स्वैदो नक्षत्रमस्य देवता बभरणे नक्षत्रो देवता पूर्णा पश्चाद्यते वृदश्च माधवश्च वासन्तिका वृतो शुक्रश्च शुचिश्चक्रेष्मा वृतो नभश्च नभस्यश्च वाषिका वृतोश्च शारदा वृतो सहस्त हैमन्दिका वृतो नवश्च तपस्यश्च शैशिरावृतोन्तराद्याना इन्द्रे स्य ध्रुवाज पृथिवी च देवस्य च विरुणस्य धत्रे च धरित्रे च मित्रावरुणयु प्राजी च प्रतीजे च नागोत्राणामादित्यानां तेजधिपदयस्तेभ्या नमस्ते नयन्द्विष्मायश्च ने चिदम्बो जम्भे दधामि सहस्रस्य सहस्रस्य प्रतिमासि सहस्रस्य सहस्रस्योमासि सहस्रायुते मामे घ्नैष्टगाधेनवः समित् दिशामाशयानस्वर्विन्मधोरतोमाधपक्पात्त्वस्मान् अत्यर्थो दिष्टरे दुरदाभ्य इदम् क्षत्रगोरक्षतुपा त्वस्मान् सर्वन्तरगोसामभिपात् तस्मान् गायित्री छन्दसाम् विश्वरूपा तिरुन्ना विश्चयास्तो अह्नागोसमत्र इदमोदप्यवर्त इन्द्राधिपदप्यभृतादतो नो मि क्षत्रम् विश्वतोधारयेदम् बृहत्सामक्षत्रभृहद्बुद्धवस्त्रियम् दृष्टभोज्रुभितमुक्रवीरम् इन्द्रस्तोमेन पञ्चदशेन मध्यमिदम् वातेन सगरेण रक्षा राजीदिशाकोसहयशस्वती विश्वे देवा प्रावृशान्नागोसु पर्वतीदम् क्षत्रम् दृष्टरमस्वायोनादृष्टकोसहस्रे विश्वे देवाः सप्तदशेन वर्त्य इदम् क्षत्रकंसलिलपादमुग्रम् धर्त्री दिशाङ्क्षत्रमिदन्दाधारोपस्थाशानाम् मित्रवदस्त्वार मित्रावरुणा शरदान्नाहाष्णो तस्मै राष्ट्रायमहिशर्म यच्छदम् ऐराजेसामन्नधिमेवमलैषानुष्टुभासम्भृतम् वैर्यनो सह इदम् क्षत्रम् मित्रवदार्द्रदानमित्रावरुणा रक्षतमाधिपत्यैः सम्राट् दिशागमसहसाम् ने सहस्वत्युदुर्हे मन्ताविष्ठयानप्यवर्तु अवस्यवादा बृहतेर्नशक्वरे यज्ञमवन्तु नाघृताची सुखानस्वदेशाम् देव्यवधुना कृताची सङ्गोपा पुर एतदपस्यास्पृहस्पदेयाम्याचम् ओर्धा दिशागोरन्धिरा सौषधेनागोसंवत्सरेण स वितानोह्ना छन्दान्दो जातुनानोऽस्तु स्वामत्रयस्त्रिरन्धे भुवनस्य पत्नीरिवस्वनो गुणा हिलादेशविधराधिपत्येष्वयस्वदीरन्दिराशानोऽस्तु सुलादिशाम् विष्णुपत्यशानासहसो यामनोता परस्पधर्माधरिष्वादवायुस्वन्धुवानावाता अभिनव गुणन्तो पृष्ठम्बोधिव धरणपृथिव्यास्य जगदा विष्णवतीशविदाशङ्गे सुभो दिशिवानाष्टेशान्या पृष्ठादिव्यन्यानमधरन्विदनमधे त्वङ्गयानश्चित्र अभवत्त्वाद्ययङ्गेतुर्थकाण्डे चतुर्थः प्रश्नः समाप्तः